वासुदेव उवाच स्वयंवरः क्षत्रियाणां विवाहः पुरुष्यभः स च संशयितः पार्थः स्वभावस्यान्निमित्ततः प्रसह्यहरणं चापि क्षत्रियाणां प्रशस्यते विवाहहेतुश्यूराणाम् इति धर्मविदो विदुः स तुमर्जुनकल्याणीं प्रसह्यभगिनीं मम हरस्वयंवरे हास्याः को वैवेदचिकीर्षितं ततोऽर्जुनश्च कृष्णश्च विनिश्चित्येति कृत्यतां शीघ्रगान् पुरुषानन्यान् प्रेषयामा सुस्तदा धर्मराजाय तत्सर्वमिन्द्रप्रस्थगताय वै श्रुत्वैव च महाबाहुरनुजज्ञै सपाण्डवः भीमसेनस्तु तच्छ्रुत्वा कृतकृत्योभ्यमन्यत इत्येवम् अनुजैः सार्धमुक्त्वा प्रीतिमुपेयिवान् इति श्रीमहाभारते आदिपर्वणि सुभद्राहरणपर्वणि युधिष्ठिरानुज्ञायामष्टादशाधिकद्विशततमोऽध्यायः